हरि ओं जय जगदम्बिकायै नमः अथ श्रीमद्देवी भागवत महापुराणे तृतीयस्कन्धे षोडशोध्याय व्यास उवाच युधाजि त्वथ सङ्ग्रामात् गत्वा महाबले। महाबल मनोरमां च पत्रच्छिघांसया सेवकान्त्रेशया मास गति मुहर्वदन् शुभे दिने दौहित्रं स्थापयामास चासुने मन्त्रिभिश्च वसिष्ठेन मन्त्री सर्वणि शुभैः अभिषिक्तश्च सम्पूर्णे कलशये जलपूरितये शङ्खनिरादैश्च सूर्याणां चासनि त्वने उत्सवस्तु नगर्यां वै सम्बभूव कुरुद्वय प्राणा वेद ेदपाठे च बन्दीनां स्तुतिभिः तथा अयोध्यामुदितेवासीत् जय शब्दैः सुमङ्गलैः पुष्टुतिवादित्र निरा भवेतस्मिन् मेपाले पूर्वभो नूतनेव सा केचित्साधुजधाय वै चक्रुशोकम् गृहे स्थिता सुदर्शनं विजिन्त्याद्य क्व गतो सोऽपात्मजः मनोरमापि साध्वी सा क्वगता सुतसंयुतः पिता स्यानिहतसंख्ये राज्य लोभेन वैरिणा इत्येवं चिन्त्यमाना ते साधव समबुद्धय अतिष्ठन् दुःखिता तत्र शत्रुजित वशवर्तिनः युधाजेदपि दौहित्रम् स्थापयित्वा विधानतः राजञ्च मन्त्रिसात् कृत्वा च वैतः स्वां पुरीं प्रति श्रुत्वा सुदर्शनम् तत्र मुनीनामाश्रमे स्थितम् हन्तुकामो जगामासु चित्रकूटं च पर्वतम् श्रुत्वा तु सुदर्शनम् तत्र मुनीनामाश्रमे स्थितम् हन्तुकामो जगामासु चित्रकूटं च पर्वतम् निषादाधिपति चोरम पुरस्कृत बलाभिनम दुर्दर्शाख्यम अगादाशू शुंगवीर पुराधि श्री स्वामोर्मा त्र भूवाति सुदुखिता आगछन तम बालपुत्रा भया था सैन्य संयुत तम वाचाशोक पितामे नेन, पिता दौहितो भूपतित हंसु कामोत्र बलान्वता पुराश्रित मैं स्वामी पांडवा भी वने स्थितिता मुनीनाश्रम पुण्य पांचा सीता सदा गे मृगया पार्थ भ्रतरे पंचेवी द्रौपदी संस्थित त्र मुनीम शुभे दम्योत्री गार्भव पैलोजाबाली गौतम भ्रुवौ च वनश्चाद्रिगोत्र च कण्व चैव जदुक्रतुः वीतिहोत्र सुमन्तु च यज्ञदत्तो धवत्कलः प्राशासन कहोडश्च यवक्रीर्यज्ञे च मुनयो भारद्वाजादयश्वः वेदपाठयुता सर्वे संस्थिताश्चाश्रमे स्थिता काचिभिः सहिता तत्र याज्ञा मरे आश्रमे चारु सर्वाङ्गी निर्भयामुनिसंवृते पाठामृगानुगास्तावत् प्रयाताश्चैव न स्वयं धनुर्बाण धरा वीरा पञ्च वै शत्रुतापनः तावत् सिन्धुपति श्रीमान् मार्गस्थोबरसंयुतः आगता च श्रे श्रुत्वा चधिगमध्वनिं कृत्वा वेदध्वनिं राजा मुनिनां भावितात्मनाम् उत्ततारे रसां दर्शनाकाङ्क्षीयानृपे यदा निरगम तत्र मृत्युद्वये समन्वितः वेदपाठयुतान् वीक्ष्य मुनिनुद्यमसंस्थितः कृताञ्जलिः पुट संस्थितोऽथ जयद्रथ आश्रमे मुनिभिः जुष्टे भूपते संविवेच तत्रोपविष्टं राजानन्द्रुकामा श्रीयसदा आर्योर्मुनिभि भार्याच कोयम कोयम् इत्यभ्रुवन्नृपम् तासां मध्ये वरारोहा सेनी समागता जयद्रथेन दृष्टा स रूपेण श्री तां विलोक्याय सितापाङ्गीं देवकन्यां वापरां पप्रत्य नृपदेधौम्यं केयीं श्यामा वरानना भाह्याकस्य सुधाकस्य नाना कावरवर्णिनी रूपलावण्यसंयुक्ता शची वैव सुधाङ्गता बर्गूलवनमध्यता लवङ्गलतिकायता राक्षसी वृन्दका नूनम् रम्भिति भामिनी सत्यम्बर महाभाग कर्षि अम्बल् भावला राजपत्नी वजाभाति नैषा मुनिर्वधुद्वी धौम्य उवाच पाण्डवानां प्रिया भार्या द्रौपदी शुभलक्ष्णा पाञ्चालि सिन्धुराजेन्द्र वसत्यत्रै वराश्रवि जेन्द्रौवाच वगता पाण्डवा पञ्च शूर सम्पत् विश्रुतः वसन्त्यत्रीराशोका महाबला धूम्य उवाच मृगयार्थं गता पञ्च पाण्डवा रससंस्थिता आगमिष्यन्ति मध्याह्ने मृगान्दाय पार्थिवः तच्छ्रुत्वा वचनं तस्य उदतिष्ठदश नृपे द्रौपदी सन्निधौ गत्वा प्रणम्बेदम् उवाच कुशलं वरा ते वरारोहे क्वथयच्छति एकादशैकदान्यद्य वर्षा नीचवने किल द्रौपदी तु ते स्वस्ति तेस्तु नृपात्मजे विश्रमस्वाश्रमाभ्या चे क्षणाधायान्ति पाण्डवः एवं भवन्त्यां तस्यां तु लोभाभीष्ट स भोपतिः जहार द्रौपदीम् वीरो नादृत्य मिलसत्तमान् कस्यचिन्नैव विश्वासः कर्तव्य सर्वथा बुधै कुर्वन् दुःखम्वाप्नोति दृष्टान्त्र वै बलि वै रोचन श्रुत श्रीमान् धर्म सत्यसंग्रह यज्ञकर्ता च धाता च शरण्य साधुसम्मतः न धर्मे निर्धय क्वापि प्रह्लादस्य च पौत्रकः एको न शत यज्ञान् कार्ये स चतुमूर्तिः सदा विष्णुसेव्य सह योगिनामपि निर्विकारोऽपि भगवान् देवकार्यार्थसिद्धये कश्यपाच्च समद्भूतो विष्णो कपटवामनः राजं छलेन धृतवान् महीं चैव ससागराम् स्वभवेत् सत्यवाग्राजा बलिवैरोचनी सदा कपटम् कृतवान् विष्णु इन्द्राथेतु मया अन्य किं न करोत्येवम् कृतं वै सत्त्वमूर्तिना वामनम् रूपमास्थाय यज्ञपातम् चिकीर्सिता न च विश्वसितव्यम् वै कदाचित् केनचित् तथा लोभश्चेतसि चेत् स्वामिन् कीदृपापकृतम् भयम् लोभाता प्रकुर्वन्ति पापान्निप्राणि न किल परलोकात् भयम् नास्ति कस्यचित् कर्हि चिन्मने मनसा कर्मण वा च परस्वादानहेतुतः प्रपतन्ति नरा सम्यक् लोभोपहत चेतस देवानाराध्य सततं वा न देवा सत्करे कृत्वा समर्था दातुमञ्जसा अन्यस्या नियते वित्तं प्रयच्छन्ति मनीचितं वाणिज्येन सदानेन चौर्येणापि वा विक्रियार्थं गृहीत्वा च धान्यवस्त्रादिकम् बहु सेवानर्चयते वैशो मद्धिर्मे भवेदिति न किं परवित्तेच्छा वाणिज्येन ग्रहणकाले तु सम्प्राप्ते मर्घञ्चापि काङ्क्षति एवं हि प्राणिनः सर्वे परस्वादान तत्परा वर्तन्ते सत सम्ब्रह्मन् विश्वास पुनः वृथातीर्थम् वृथादानं वृथाध्योहासर्जय गृहं प्रति सपुत्र अहं वसिष्यामि जानकीवद्विजोत्तम इत्युक्तो सुमरे तावत् गत्वा योधाजितम् नृपम् उवाच वचनम् राज्ञे भारद्वाजे प्रदापवान् च्छराजन् यथा कामं स्वपरं नृपसत्तमोरभाच मुने मुञ्च हठं सौम्य विसर्जय मनोरमा च यास्याम्यम् मुक्त्वा नैशा यद्य बलात् पुनः वाच नयस्व यदि शक्तिस्ते बले नाद्य ममाश्रमात् विश्वामित्रो यथा धेनुम् मुने पुरः इति श्रीमद्देवी भागवते मा पुराणे अष्टादशताद्यां संहितायां तृतीयस्कन्धे युधाचिद्भारद्वाजयोः संवादवर्णनं नाम षोडशोऽध्यायः श्रीजगदम्बिकायार्पणमस्तु